अथाष्टषष्टितमः सर्गः जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः त्रिरात्रमुषिता मार्गे ते योध्याम् प्राविशन् पुरीम् ते राजवचनात् गत्वा राजवेश्म प्रवेशिताः ददृशुर्देव सङ्काशम् वृद्धम् सर्वे दूता, दूता विगतसाध्वसाः राजानम् प्रश्रुतम् वाक्यमब्रुवन्मधुराक्षरम् मैथिलो जनको राजा साग्निहोत्र पुरस्कृतः मुहुर्मुहुर्मधुरया स्नेहसंरक्तया गिरा कुशलम् चाव्ययम् चैव सोपाध्यायपुरोहितम् जनकस्त्वाम् महाराज पृच्छते स पृष्ट्वा कुशलमव्यग्रम् वै देहो मिथिलाधिपः कौशिकानुमते वाक्यम् भवन्तमिदमब्रवीत् पूर्वम् प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः सेयम् मम सुता राजन् विश्वामित्रपुरस्कृतैः यदृच्छया गतैराजन् निर्जिता तव पुत्रकैः तच्च रत्नम् मध्ये भग्नम् महात्मना रामेण महाबाहो महत्याम् जनसंसदि अस्मै देयामया सीता वीर्यशुल्का महात्मने प्रतिज्ञाम् तर्तुमिच्छामि तदनुज्ञातुमर्हसि सोपाध्यायो महाराजपुरोहित पुरस्कृतः शीघ्रमागच्छ भद्रम् ते द्रष्टुमर्हसि राघवौ प्रतिज्ञाम् मम राजेन्द्र निर्वर्तयितुमर्हसि पुत्रयोरुभयोरेव प्रीतिम् त्वमुपलप्स्यसे एवम् विदेहाधिपतिर्मधुरम् वाक्यमब्रवीत् विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः दूतवाक्यम् तु तच्छ्रुत्वा राजा परमहर्षितः वसिष्ठम् वामदेवम् च मन्त्रिणश्चैवमब्रवीत् गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः लक्ष्मणेन सह भ्रात्रा विदेहेषु दृष्टवीर्यस्तु काकुत्स्थो महात्मना सम्प्रदानम् सुतायास्तु राघवे कर्तुमिच्छति यदि वो रोचते वृत्तम् जनकस्य महात्मनः पुरीम् गच्छामहे शीघ्रम् मा भूत्कालस्य पर्ययः मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः सुप्रीतश्चाब्रवीद्राजाश्वो यात्रेति च मन्त्रिणः मन्त्रिणस्तु नरेन्द्रस्य रात्रिम् परमसत्कृताः सर्वे गुणै ऊच प्रमुदिताे गुणस्समताशे श्रीमद् रे वाक आदि का्यलकांडे अष्टितम सर्ग